श्रीमद्भागवतमहापुराणं चतुर्थस्कन्ध अथ त्रयोदशोऽध्यायः सूतुवाच निसम्यको सारमिणोपवर्णतं ध्रुवस्य वैकुण्ठपदाधिरोहणं प्ररूढभावो भगवत्यथोक्षदे प्रष्टुं पुनस्तं विदुरप्रचक्रवे विदुरुवाच के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमाशत मन्ये महाभागवतं नारदं देवदर्शनं येन प्रोक्तक्रियायोगपरिचर्याविर्हरेह स्वधर्मशीलै पुरुषे भगवान् यज्ञपूरुष यज्यमानो भक्तिमता नारदेकिल यास्तादिवर्षिणा तत्र वर्णिता भगवत्कथाः मह्यं शृश्रोषवे ब्रह्मन् कास्नेना चष्टुमर्हषे मैत्रि उवाच ध्रुवश्च चो, ध्रुवस्य चोल्कलपुत्रपितरे प्रस्थिते वनम् सार्वभौमश्रियं नैषन् अधिराजासनं पितुः स जन्मनोपशान्तात्मा निषङ्गं शमदर्शनः ददर्शलोके विततम् आत्मानं लोकमात्मनि आत्मानं ब्रह्मनिर्वाणं प्रत्यस्तमेतविग्रहम् अवबोधरसैकात्म्यम् आनन्दमनुसन्ततम् अव्यवच्छिन्नयोगाग्निदग्धकर्मबलाशयः स्वरूपम् अवरुद्धानोन्नात्मनोह्यं तदेक्षत जडान्धबधिरोन्मत्तमूकाकृतितरन्तन्मतिः लक्षितपतिबालानां प्रशान्ता चिरिबालः मत्वा तं जडमुन्मत्तं कुलवृद्धा समन्त्रिणः वत्सरं भूपतिं चक्रुरि यवीयान्सम्भ्रमे सुतं सर्वेथीर्वत्सरश्रेष्ठा भार्यासूतसरात्मजान् पुष्पार्णं तिङ्मुकेतुं च इशमुर्जं वसुं जयं पुष्पार्णस्य प्रभा भार्या च द्वेव भूवतुः प्रातर्मध्यं दिनं सायम् इति शासन्प्रभासुताः प्रदोषो निसुतो व्युष्ट इति दोषासुताश्रयः व्युष्टसुतं पुष्करिण्यां सर्वतेजसमादधे स चक्षुःसुतमाकृत्यां पत्न्यां मनुमवापः मनोरसूतमहिषे विरजानन्डवदासुतान् पुरुं कुत्सं त्रितं दुम्नं सत्यवन्तमृतं मृतम् अग्निष्टो मम मतिरात्रं प्रद्युम्नं शिवमलुकुमूकम् उल्मोको जनयन् पुत्रान् पुरस्करिण्यां शरुत्तमान् अङ्गं शमनसंख्यातिं कृतमङ्गिरसं गयम् सुनीताङ्गस्य या पत्नी शिशुबेवेन मुल्बणम् यद्दौशल्यास राजर्षि निर्विण्णो निर्गात्पुरात् यमङ्गसे पू कपिता वाग्वज्रां मुनिय किल गतासुतस्तस्य भूयस्ते करम् अराजके तदा लोके जातो नारणां नारायणां सेन पृथुराद्य चितेश्वरः विदुर्वाच तत्सशीलनिधे साधो ब्रह्मण्यस्य महात्मनः राज्ञ कथं अभूदृष्टा प्रजायद्विम्ना यौ किं वा हो वेन उद्दिश्य ब्रह्मदण्डमयोजन् दण्डव्रतधरे राज्ञी मुनियो विदाह। नावध्येय प्रजापाल प्रजाभिरभवानपि यदसौ लोकपालानां बिभर्त्योजस्वतेजसाम् एतदाख्याहि मे ब्रह्मन् सुनीथात्मज चेष्टितं सद्धानाय भक्ताय त्वं परावर्वितं वित्तमः मैत्रिवाच अङ्गो समेधं राजर्षिराजहार महाकृतं नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभिः तमुचुर्विस्मितास्तत्र यजमानम् अतर, अथ अथ त्वयः हविषे हूयमानानि न ते गृह्णन्ति देवताः राजन्हविष्य दुष्टानि श्रद्धया साधितानि ते संदास्य यातयामानि योजितानि धृतव्रतैः न विदाम् देहदेवानां हेलनं वयमन्वपि यन्यगृह्णन्ति भागान् स्वाञ्जे देवा कर्मसाक्षिणः